ब्रह्माण्डपुराणं मध्यभागम् अध्यायं तु प्रजापदिवंशानुकीर्तनं सूत उवाच विनिवृत्ते प्रजासर्गे षष्ठे वै चाक्षुषस्यः प्रजासृजे दीव्यतिष्ठस्वयं दक्षस्वयंभुव ससर्जसर्वभूतानि गदिमन्दिध्रुवाणि च मानसानि च भूतानि स पूर्वमसृजत्प्रभुः ऋषीन् देवांश्च गन्धर्वान्मनुष्योरगराक्षसान् यक्षभूतपिशाचांश्च वयः पशुमृगांस्तथा यदा से मनसा सृष्टा न व्यवर्धन तजा अपध्याद भगवता महादेव धीमता स मैथुन भाव शिश्रुक्षुर्वविधा प्रजा असी क्रीम्धार वीरण से प्रजापते सुधां सुमहदायोक्तां तपसा लोकधारिणीं यया धृतमिदं सर्वं जगस्थावरजङ्गमम् अत्राप्युदाहरन्दी मौ श्लोकौ प्राचेत साम्प्रति दक्षस्योद्वहदो भार्या मसि कृं वैरणीं पुरा कृपानां नियुधं दक्षं सर्पिणाम् साभिमानिनां नदीगिरिवसन्दं पृष्ठदोऽनुययौ प्रभुम् तं दृष्ट्वा ऋषिभिः प्रोक्तं प्रतिष्ठास्यदि वै प्रजाः प्रथमोऽत्र द्वितीयस्तु दक्षः स हि प्रजापतिः अथा गच्छत्यथा कालं नियुतं तु असि क्रीं तत्र दक्षप्राचेतसो वहद अध पुत्रसहस्रं स वैरण्याममितौ जस्सम् असि जनयामास दक्षप्राचेतसः प्रभुः तां स्तु दृष्ट्वा महाते जस विवर्धयिषु प्रजाः देवर्षिप्रियसंवादो नारदो ब्रह्मणः सुतः नाशाय वचनं तेषां शापयैवात्मनोऽ ब्रवीत् यः कश्यपशुतः परमेष्टि व्यजायत मानस कश्यपस्या दक्षशापवशात् पुनः तस्मात् स काश्यपस्याधद्वितीयो मानसो भवत् स हि पूर्वं समुत्पन्नो नारदः परमेष्ठिनः तेन वृक्षस्य पुत्रा हर्यश्वा इति विश्रुताः धर्मार्थं नाशिताः सर्वे विधिना च तस्योद्यतस्तदा दक्षक्रुद्धशपाय वै प्रभुः ब्रह्मर्षीन्वै पुरस्कृत्य याचितः परमेष्टिना ततोऽभिसन्धिं चक्रे वै दक्षश्च परमेष्टिना कन्यायां नारदो मह्यं तव पुत्रो भवेदिति तदो दक्षः सुधां प्रदात्प्रियां वै परमेष्टिने तस्मात् स नारदो जज्ञे भूयशापभयदृशिः शांशपायन उवाच कथं वै नाशिदा पूर्वं नारदेन सुरर्षिणा प्रजापदि सुदास्तेवै वै श्रोतुमिच्छामि सुत उवाच रक्षपुत्राश्च हर्यश्वा विवर्धयिषवः प्रजाः समागदा महावीर्या नारदस्तानुवाचः बालिशाब्दयूयं वै नः प्रजानीधभूतलम् अन्धरूर्ध्वमधश्चैककथं स्रक्ष्यथ वै प्रजाः ते तु तद्वचनश्रुत्वाप्यादाः सर्वतो दिशमथापि मा निवर्तन्ते समुद्रस्ता इवापगाः अथ तेषु प्रणष्टेषु दक्षः प्राचेतसः पुनः वैरण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः प्रजाविवर्धयिषवशबलाश्वा पुनस्तुदे पूर्वमुक्तं वचस्तद्वै श्राविता नारदेनः अन्योन्यमूचुस्ते सर्वे सम्यगाहर्षि स्वयं भ्रातॄणां पदवीं चैव संशयः न्यात्वा प्रमाणं पृथ्व्या वै सुखं स्रक्ष्या महे प्रजाः प्रकाशाश्वस्थमनसा यथा वदनुशासिताः तेऽपि तेनैव मार्गेण प्रयाता सर्वतोदिश्यम् अद्यापि न निवर्तन्ते विस्तारायमलिप्सवः ततः प्रभृति वैभ्राताभ्रादुरन्वेषणे रथः प्रयतो नश्यति क्षिप्रं विजानता। कार्यं विजानत नष्टेषु शबलाश्वेषु दक्षक्रुद्धो शपद्विभुः नारदं नाशमेहीतिगर्भवः संवसेति च तदा तेष्वपि नष्टेषु महात्मा सप्रभु किल षष्टिं दक्षो सृजत्कन्या वैरण्यामेव विशृताः तास्तदा प्रतिजग्राः पत्न्यार्थं कश्यपः सुताः धर्मस्सोमश्च भगवांस्तदा महर्षयः इमां विसृष्टिं दक्षस्य कृष्णां यो वेदतत्त्वतः आयुष्मान्कीर्तिमान्धन्यप्रजावाश्च भवत्युत इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे प्रजापतिवंशानुकीर्तनं नाम द्वितीयोऽध्यायः ओ